उपतिोन्नावद् दशकम् बलीडम् मून्डि मन्यासितल् प्रीत्या दैत्यस्तव तनुमः प्रेक्षणात् सर्वथापि त्वामाराध्यन्नजितरचयन् अञ्जलीम् सञ्जगाद मन्थः किम् ते समभिलचितम् विप्रसूनो भवनमवनी वापि सर्वम् प्रदास्ये कामाक्षीणा बलिगिरमुपाकर्ण्यकारुण्यपूर्णो अप्यस्योत्सेकम् समयतु मन दैत्यवंशम् प्रशंसन् भूमिम् पादप्रयपरिमिता प्रार्थयामासि तत्त्वम् सर्वम् देहीतो निगदिते कस्य हास्यम् न मां स्यात् विश्वेशम् माम् त्रिपदमिह किम् याचसे पालिचस्त्वम् सर्वाम् भूमिम् वृणु किममुना विद्यालभ त्वाम् स दृप्यन् दर्होऽपि काढोपशान्त्यै पादत्रयायतिन मुदितो विष्टवैरापि तुष्येत् यद्योक्तेऽस्मिन् भरत भवते दादुकामेततोऽयम् दैत्याचार्यस्तव खलु परीक्षार्थिन प्रेणरार्तम् हरिरयमिति व्यक्तमेवा बभाषे याचत्येवम् यदि स भगवान् पूर्णकामोऽस्मि सोऽहम् दास्याम् येव स्थिरमिति भदन् काव्यशब्दोऽपि दैत्यये विन्ध्यावल्या निजदयितया दत्तवात्याय तुभ्यम् चित्रम् चित्रम् सकलमपि स प्रापयत्थोयपूर्वम् निःसन्देहम् दितिकुलपथो त्वय्य शेषार्पणम् तत् व्याथन्वाने मुमुषुर् रुषय सामर पुष्पवर्षम् दिव्यम् रूपम् तव च दति तम् पश्यताम् विश्वबाझाम् पदीकृत्य विश्वाण्डबाण्डम् त्वत्पादाग्रम् निजबदगतम् कुण्ठरीगोद्भवोऽसौ कुण्ठीतो यैरचित पुनात् यज्जलम् विश्वलोकान् हर्षोत्कर्षात् सुभगुनृते केशरैरुत्सवेऽस्मिन् भेदिम् निग्नन् भुवनमसज जाम्बवान् भक्तिशालीम् तावद् दैत्यास्वनुमति मृधे पर्तुरारब्धयुक्ता देवो भेतैर्बवतनुचरे सङ्गता भङ्गमापन् कालात्मायम् वसति पुरतो यत्त्वचात् प्राग्जिता स्म वो युद्धैरिति ते बलिगिर तेतपातालमापू पाचैर्बद्धम् पदगर्भतिना दैत्यमुच्चैरवाधी तातीयीकम् दिश मम पदम् किम् न विश्वेश्वरोऽसि पाधम् मूर्नि प्रणय भगवन् इत्यकम्पम् वदन्तम् प्रग्लादस्तं स्वयमुपगतो मानयन् अस्तवीत्वा दर्पो जित्यै विहितमखिलम् दैत्यसिद्धोऽसि पुण्यै लोगस्ते स्तुत्रिदिव विजये वासवत्त्वम् च पश्चात् मत्सायुज्यम् भज ताल चोपिका जीवन स्मरण गोविंदा गोविंद